संहितापाठम् सहस्राक्षेण शतशारदेन शतायुषा हविषाहारुषमेनं शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारं सहस्राक्षेण शतशारदेन शतायुषा शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् सहस्राक्षेण शतशारदेन शतायुषा हविषाहारुषमेनं शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम्